यस्तस्य सहसा राजन्विकारः समदृश्यत तेन शुस्रावरेऽतोऽस्य स च तन्नान्वबुध्यत धनुश्च स शरम् त्यक्त्वा तथा कृष्णाजिनानि च स विहायाश्रमम् तञ्च चैवाप्सरसं मुनिः जगामरेतस्तत्तस्य शरस्तम्बे पपात शरस्तम्बे च पतितम् द्विधा तदभवन्नृप तस्याथ जज्ञे गौतमस्य शरद्वतः मृगयां च रतो राज्ञः शन्तनोऽस्तु यदृच्छया कश्चित् सेनाचरोरण्ये मिथुनं तदपश्यत धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्त अगस्त्यः स राज्ञे दर्शयामास मिथुनं धनुः सतदादाय मिथुनं राजा च कृपयान्वितः आजगामगृहानेव मम पुत्रा